त्राणि जङ्घनश्रविणः समिन्थः शुक्राहुतः भद्राधिक्रतुः भद्राते अग्नेष्वमेकसन्द्रग्घोरस्य सतो विष्णश्चयत्ते शोचिष्टमसामरन्तनद्भस्मानस्तनुविरे न्दे अग्ने सन्ननेकमुपाकारो कृते सूर्यस्य तया चिदलोक्षितम् दृशारूपेण सैन्यकेन अस्मेष्ट देवागुण्डाय जिष्ठस्वस्ते अतरद्ध गोपा पुतनः परस्पाग्ने स्वस्तिको दिवो अग्ने पृथिव्या विश्वाय देव यच्छा यज्ञेभ्यः सो नो दरसो यजा समनासमानानुसन्नग्नवृशतो यक्षिदेवान् अग्निवेडे दे पुरोहितस्य देवमर्तिणम् षादे पपुष व्रतः हविर्मज युष्माकोदशः मरुतः स्वर्गा वुरुक्षणा सकणामानुषेभदः सान्तपनामनिरामादैष्टवः पतेहाभिरग्ने ज्येष्ठः ेवष्टिवर्धनः सो मनोभव स्त्यध्वम् भागमेतम् गृहमेधेयम् मरुतोम् ्याजस्रावक्ष्यदेवताभिप्रगायता अत्यासोनरे मरुदस्पञ्चो लक्षो नेहेभ्रामताः प्रेषामेषु भूमि शुभे प्राजलक्ष्मयस्वरम् मरहितम् परयन्तधूतयः उपक्वरेण शोतम् निकोषा उपबोलते अश्वाघुतमोक्षता मधुवम् न वर्तते अज्ञमाग्निकम् भवेम विश्वदाहवन्त विश्वतिम् अज्ञवाहम्बुप्रजम्भिरस्वम् नेवम् अज्ञकम् हव्यायोढवे इन्द्राग्नेयो जना छद्भृत्रमिन्द्रम् विश्वरस्परेन्द्रन्नो विश्वकर्मण हविडा वा वृधा मा विश्वकर्मण हविडावर्धनेण क्षमाय त्वा क्षयम् जन्म धर्माय त्वा धर्मे त्वादिवम् जिन्म सन्धयश्चन्तरिक्षाय त्वान्तरिक्षम् पृथिविदे त्वा पृथिवी जन्म विष्टम्भृष्टे त्वा पृष्टम् जन्म क्षमाश्चे त्वा हर्जन्वा न स्यादित्येभ्यस्तादित्या प्रजाभ्यस्ता प्रजा जन्मपदनाकाभ्यस्ता पदोन्मरेभ्यस्तौषधे जन्माभिजरसिक्तेन्द्रायत्वेन्द्रञ्जन्माधिपजरसि प्राणायत्वात् प्राणं जन्मयन्ता प्राणाय त्वा प्राणञ्जन्मयम् सर्त्वाधिक क्षु जा चक्षु जन्मव योधा अधिश्रोत्राय त्वा श्रोत्रम् जन्म त्रिवदधि प्रवृदसि संवृतसि विवृदसि सकम् रोहो दिवसि को प्राजेरिपदत्तास्त्वम पृथिव्यागश्रयत्वाद्यदक्षिणादिवाधिपद इन्द्रहेदेनां प्रति धत्ता पञ्चदशस्वास्त्वम पृथिव्यागश्रयतुं प्रयोगमुक्षमव्यसभु बृहत् स्वामप्रदक्षम् प्रदे जनादित्यास्ते देवाधिपदय सोमो हेदीनां प्रतिसत्ता स्तोम पृथिव्यागर्शयतु मलेयमुक्षमव्यंसाम प्रजक्षत्यये स्मराढस्पदेवादयो त्यादेवामधिपद बृहस्पतिभक्ता तृणवत्रयस्त्रिपुंसौ त्वा स्वामो पृथिव्याकर्षयता देवाग्निमारुते अव्यसयन्ते राम प्रतिष्ठित्या प्रथमजा देव मात्रया वर्णा धिपगच्छते त्वा सर्वेदम् विधानानागस्य पृष्ठेषु वर्गे लोके यजमानम् च साधयन्तो अयम् पुरो हरिषः सूर्यस्तस्य रथविस्तस्य रथो जाश्रेणा निग्रामण्यो पुञ्जकस्थला जगतस्थला हेतेरक्षाकं जहेतिरयम् दक्षिणा विश्वकर्मादस्य रथः स्वरश्च रथे चित्रश्चेजपौरुषेण प्रहेतिरयम् पश्चाद्विष्टव्यचातस्य रथः प्रोपश्चात् समरश्चेना निग्रामण्योः प्रम्लोदं देधा हेतिरयमुत्तरा दत्तस्य सेनश्च देनानि ग्राह्मण्यो विश्वादीत घृताजीतात् सरसा पापो हेतर्वादप्रहेतिरयमपर्यर्वाग्धत्तस्य नाच्छानिश्च देमिश्च देनानि ग्राह्मण्या गुर्वसी च पूर्वजिष्टात् सरसो विद्युद्धेतिरमस्मोजन्प्रहेतिस्तेभ्यो यच्छति मन्त्रिगं हरिमं माहि विश्वस्मै प्राणाय बाणाय ज्ञानाय दानाय प्रतिष्ठाय चरित्राय त्या स्वस्त्या सत्यश्च न संवरणाद्यस्था आलस्य पातो अनुपाति सोऽधस्पदय व्रजलम् कृष्णमस्ति अग्निगुत्पतिः पृथिव्या अयम् अपागुम् रेतागुंसि जन्वते आमग्ने पुष्पराज्य विश्वस्य बाधतः अयमज्ञस्य हस्तिनोवार्यहस्पतिः भवा यज्ञस्य ष्पायः प्रवजामुद्दिहा नवस्य स्रदेपाकमच्च अवोचामकमलेवेद्यायवचो वन्दारष्णे रविष्ठितो नवतास्त्वामग्नौ दिवीव रुग्नमूर्ग्यम् च पश्येत् गोपा चरस्ोपालग्रविस्व दक्षस्व पिता घृत प्रदेश कांगि गुहाम विंदिशान सच्च्य सहो महत्मा हुि यज्ञस्य केदम् प्रथमम् पुरोहितत्रिरथश्चेदमिन्धते दे। इन्द्रेण देवैः सरथकम् दण्डिहोतायथाय सुक्रतुः प्रश्रवस्तमहवन्ते विक्षुजन्तवः सोजिष्ये शम्पुरुप्रजाग्ने हव्यायवोढवेयः सम्बन् चाग् परिधिष्ठायक्षिते नार्जोणप्रे सहस्पते सर्वम् समेज्ञे विश्वा निर्याणः पदे तमिद्यते तदोन्याभर एनावसोऽपातबाहुवेयन्तेऽतिष्ठपरस्मत्फलम् विश्वस्य दूतममतम् स योजते अनटो विश्वभोजता स रुद्रवत्स्वाहुतः सुर्ब्रह्मा यज्ञस्य ते पसूनाम् देवगुणाथो जनाम् उदस्य शौचरश्चादायुक्मानस्य पीषुः अरुणातोशः समग्निन्धते नरः वाजस्य गोपथ ईशानः सहतो यो अस्मेधेहि जादवे तो महिश्रवः स यथा नोपधः कविरग्निरेण रेवदस्मभ्यम् पूर्वणीय दीधिः क्षतो राजन्नुतर्पराज्ञ स्तो ऋतोषः स जग्मजम्भरक्षतोदः प्रति आदे अग्निधीमहिद्युमन्तम् देवाजनम् यद्ध स्यादेपदीयते दे समिद्दीनय त्यमेतज्ञस्तोतभ्याः आदे अग्निदाहविः शुक्रस्य ज्योतिदस्पदे श्चेरा न भद्रगंहतिस्पृशम् हृद्ध्यामा तवोहैः कतो भद्रस्य दक्षस्य साधोः रथे हृदस्य बृहतो बभूच आविष्टेर्गृणन्तोग्ने चाशे दिवो नस्तनयन्ति सुष्मा एभिर्नो अर्केर्भवानो अर्वान् सुभर्ण ज्योतिः रग्ने विश्वेभिः सुमना अनीकैः अग्निगुम् होतारम् मन्ये सोनगुरो देवो देवाच्च कृपा घृदस्य विभ्राष्टुक्रशोज आयुत्मानस्य सर्पितः अग्ने त्वन्नमः उत त्राता शिवो भवपरोक्षः सन्ताशोजिष्ठजेदिवः सुम्नाय नव नवेमहे सखेभ्यः पदग्नधस्रवाः रक्षा रक्षद्युमत्तमोरयिन्दाः भ्यान्तासयजायजाय रज्ञाधाराभ्रान्ते च सामर्थभिच्छन्दो भेरय्यै भोजाय सहादानाम् मध्यमस्थेजाय मया तादयैजा इजाय रज्ज्ञा बादुराय रत्रभ्रयन्ते मेघयन्ते वर्षयन्ते च पुणीका नामाजप्रजापतिनात्मा विश्वाभिरुद्धेभिरुपदधामिदर्ग्यपरवर्णेण विष्टामनुष्या स्ते गोक्ताराज्ञ शान्तामहं भव मे बृहस्पति स्वादालय पृथिव्या पृष्ठे ज्योजस्पदे विश्वस्मै प्राणायपानाय विश्वञ्जोदरे यच्छाग्निस्तेऽधिपतिर्विश्वकर्मा धिपति पुरोधस्य भ्रिद्युच्छिसनिरश्च यान्येवानामग्ने जान्यधि वायोन्यज देवानां वायोजान्यस्त्यन्तरिक्षान्येवानामन्तरिक्ष्यस्त्यन्तरिक्षमस्त्यन्तरिक्षाय त्वा सनि सम्यकाय त्वा सतीकाय पदे त्वादिवस्पाज्ज्योतिषादित्येभ्यस्पच्चे त्वार्जे त्वा भाचे त्वाज्योतिषे त्वायषोदान् पायषिते योदान् पाये दुशिपयोदान् पापय शिवच्चोदान् भोजस्कृतशिवरिमस्कृतसि प्राच्यस्योद्वं नादयामि नन्दरक्षस्य त्वात् द्रिविणे चादयामि जिवस्वात् त्रिविने सादयामि दिशान्त्वात् त्रिविणे सादयामि द्रुविणोदान्त्वात् त्रिविने चादयामि प्राणं मे पाह्यपाणं मे पायज्ञानं मे मे पाह्यायम् मे पाहि विश्वायन् मे पाहि सर्वायन् मे पाठ्यज्ञेय ते परम् बृह्णामता वे हजगौरभामये पाञ्चजन्य स्वप्ये ज्ञेया वायवाय बाहो वा मा सद्दः सगरः ग्निना विश्वासा सौर्येण स्मराष्टा यज्ञेन मघवान् दक्षिणया तु भर्गो मञ्जुना वृत्रहा दौहाेन गज प्रथिव्यासनोर्भिरन्नादो मारेणद्धः साम्नातनोपाविराजान् ब्रह्मणा समपा गोभिर्यज्ञन्दाधारक्षत्रेण मनुष्यानष्टेण स्तपदानाष्टो यः सन्तनोभिः प्रजापजन्मनसान्त्रेष्टापजप्रणीयमानाग्निराग्ने बृहस्पतिराग्ने प्रणेयमान इन्द्रोहमिद्धानेरासा विष्णरूपावक्रिय मित्रः क्षेरश्वेर्मन्थे दत्तश्व च रुद्राहृत वायुरावृत्त निचक्षा प्रतिक्षा च भक्षागत पृतृणा नाराचकुंस सुदास्तस्य मृतमप्रया सर्वद्रवगतस्तरिण प्रपृतस्तुभृदुजङ्गतः कृत्तिका नक्षत्रमग्निर्देवताग्नेगस्थ प्रजापदेचेत्त्वा विजयत्वा विजये त्वा भाते त्वा ज्योतिषे त्वाक्षत्रकम् नक्षत्रगुं भक्त्वा देवता मघानक्षत्रं वितरो देवता फल्गुने नक्षत्रमर्यमा देवता फल्गुने नक्षत्रं भगो देवता हस्तो नक्षत्रगुं दविष देवता चित्रा नक्षत्रमिन्द्रो नक्ष्ट्र देवता स्वाते नक्षत्रमावो देवता शाढा नक्षत्र विश्वे देव देवता सोणा नक्षत्रं विष्णद्देवता नक्षत्रं वसवो देवता सदभिषण् नक्षत्र देवता प्रोष्ठपदा नक्षक्रमदेकमा देवता रेव नक्षत्रं बोधा देवता श्रीजो नक्षत्रमश्विनो देवता यमो देवता नक्षत्रत्र यम देवतापोर्ना पश्चाद मधुश्च माधवश्च मादन्तिका मृतो पुत्रश्च ग्रेत्मा मृतो नभश्च न भस्त वारणिका मृतो शारदा मृतोतहश्च हस्तश्च हैवन्तिका मृतोतपश्चन वस्त्यश्चैशिरा मृतोमग्नेरन्तस्नेतो जगल्मेतावोषे कल्पन्तामग्नयः प्रथन्मध्ये वा पृथिवेशैशिरावृतो अभिकल्पमाना इन्द्रमिव देवा अभितं प्रदेताश्चाग्ने सोमस्य सौर्यस्येन्द्रस्य ध्रुवा च पृथिवे च देवस्य च मितं मरुता वरुणस्ते च धैत्रे च मित्रा ष्मायस्तदाेदम्भोजम् रहस्रस्य प्रमा अधिसहस्रस्य प्रतिमा अभिसहस्रस्य दिवा अधि सहस्रस्योन्मा अभि दहस्रादि सहस्राज त्वे वामे अग्नयस्तकाधेन हस्तन्त्वेकादशतं सहस्रम् चायुतञ्च लीतम् च प्रेतम् चार्बुदं च न्यद्भुदं च समुद्रश्च मध्यम् चान्द्रश्च पदार्थश्चे ग्नयिष्टका धै नवः सन्त जनाः सहस्रमय क्षीरमानाश्चितोनयष्टका धै नवः सन्त विराजो नाम कामधुधा अमुत्रे स्वमिग्निषा मादयामिधव अग्निर्देवो दुष्करे दुरदाभ्यम् क्षत्रगुम् रक्षतुपा त्वस्मान्पा त्वस्मान् गायत्री छन्दसाम् विश्वरूपाविष्ठया स्तोमो अह्नागुम् समुद्रो वाद इदमोदः पिभक्तो उग्रादिशामभिभो दर्वुक्रे इन्द्राधिपति अप्यप्रदादतो नो महि क्षत्रम् विश्वतो धारणेनसामक्षत्रभर् वृद्धवृष्टियम् दृष्टभोगः सुभितमुग्रवीरम् इन्द्रस्तोगेन पञ्चदशेन मध्यमिदम् वातेन सगरेण रक्षा प्राचे दिशा यशस्पति विश्वे देवा प्रावृढान्नागुम् सुवर्वते इदम् क्षत्रम् दष्टवस्तोजोदाधृष्टगुन्द्रहसगुन्द्रहस्वते वै लोपे धावन्विषदच्छके परिवत्केन वृक्षावेदयामः विश्वे देवाः सप्तरथेनमर्थमिदम् क्षत्रगुण्डमिदवादमुग्राम् धद्रे दिशाम् क्षत्रमिदन्दाधारोपस्थासानाम् वित्रभदस्तोजः वरुणा सरदान्धाञ्चकित्रो अस्मै रात्रा जप किशर्म यच्छतम् नैराजेधा वन्न वेप नेशा नष्टभासम्भृतम् सहम् क्षत्रम् मित्रवतार्तदा नमित्रावरुणारक्षतपाधिपत्यैः सौम्राज्यम् सहसा मेदः स्मत्कृतृहे मन्दामिष्ठयानः पिभर्त अपस्युपाता प्रहतेऽ नृषक्पदे धृताजेः सुखर्वते सुदुःखानयस्पते दिशाम् देत्यवदनो धृताजेः सङ्गोपाः पुरनेतोतपश्चाद्बृहस्पते दिशागम् रन्दिराजौषधीनागम् दम्भःसरेण पिता नो अह्नाः सामादिच्छन्दाच्छन्दो जातुशत्रुश्योनानो अस्तु सोमत्रयस्त्रिपुंसे भुवनस्य पत्नीस्वद्वाते अभिनो गृणाहि घृतपदेशितराधिपत्ये प्रयस्वतीरन्ति अस्तु। विष्णुपत्न्यघोरास्तेषामनोताः बृहस्पजम्बा नोत बायः सन्धुवानावाता अभिनो गृणन्त पृष्टम् भो दिवो धर्मपृथिव्या हस्ते च नाजगतो विष्णुपत्नी विष्णम् या इषयन्ते सुभोदिः शिवानो अस्पदितिरुपस्थेवानो न भूत्या पृष्ठोदिव्यद्यानुपतिरन्वितङ्कयानश्चित्रायन्ते ओ नमस्ते रुद्रो वैषते नमः नमस्ते अस्तु धर्मेभ्यः शिवाद्रव्या यातया नेरुद्रिवातनोरघोरापापकाशिनी तया नस्तनुपासन्तमया गिरिशन्ताभिजाकशीः यामिषम् गिरिशन्त हस्ते बिभक्ष्यस्तवे शिवाङ्गे त्वदाङ्गरुमाहिकुम्से पुरुषम् जगत् प्रागिरिसाक्षा वदामसे यथा नः सर्वमिजगत् यक्ष्मकम् सुमनासद्रवोचदसि भक्ता प्रसमो देव्यभिजग अहेकश्च सर्वान् जम्भयान् सर्वास्त्यया तु धान्यः असो यस्ताम्रो अरुणमुद्रस्तु उदयनम् गोपा अदृशन् अदृशन्मुत हार्यः उदयनम् विश्वा भूतानि सुरक्षामणया जनः साक्षायेः अथो जेण्डवः प्रथमम् सहस्रेधे निजेऽपि शल्यानाम्खा शिवो न अनेशम् नस्येषव आभुरस्वङ्गचिः यादे हेतुर्मे दृष्टमहस्ते बहूपदेधमः तयान विश्वतस्तमयक्ष्मजापरिभुजा नमस्ते अस्मायधा जानात उभाभ्यामुददेहुभ्यान्तवधन्मने हेतिरस्मान् विश्वतः अथोय विधिस्तभाे अस्मन्निधेहिताम् नमो हिरण्यपाहवेशाम् च बे नमो नमो वृक्षे हरिगेज व्यः पशूनां पदयैन मो नमः षष्ठिञ्जलाय त्रिशे नमो बभृजाय विव्याधिनेनानां पदयैन मोनमो हरिगेजाय मवेजने पुष्टानां पदयैन मो नमो भरस्य हैत्ये जगदां नमो रुद्राजा दधामिनैक्षेत्राणाम् पदलेन भो नवः सूतायाहङ्कारमनानाम् पदयेन भौनवो लोहिताय स्थपदेव वृक्षाणाम् पदनेन भो नमा मन्त्रिणे वायुजाय कक्षाणाम् पदलेन भौनव भुवन्तये भारिवस्कृताय उडधीनाम् पदनेन भो नव उच्चैर्घोजायाम् क्रुन्दय देवत्यैनाम् पदयेन मौनवः कृत्स्रवीताय धावदेहत्वनाम् पदये नमः नमः सह मानायण व्याधिन आम् व्याधिनेनाम् पदजेन मो नृषङ्गिणे स्ते पदयेन मौ नमो निषङ्गिणुधिमते तस्कराणाम् पदजेन मो नमो पञ्चले परिवञ्चलेस्तायूनाम् पदयेन मो नवो निजेन वारण्यानाम् पदजेन मो नवश्रुकामिभ्यो जिघागुं सद्भ्यामुष्टाम् पदयेन मो नवोऽभ्यो नभ्यः प्रकृन्तानाम् पदजेण मो नव मुष्टे गिरितराजकुपञ्चानां परजेन मौन भविषुमभ्योम्भाविर्भ्यश्च बोन मौनः आदम्बानेभ्यश्च बोन मौन च्छद्भ्रामिष्टमो नमो नमश्चद्भ्रा विद्यष्टमो नो नमः भारभ्यष्टमो न मो नमः स्व न मो नमस्तेष्टभावद्भ्यष्टमो नमो नमः स्वभावभ्यस्वभाव दिग्भ्यष्टमो नमो नमो अश्चभ्यष्टमदिग्भ्यष्टमो नमः नमः व्याधिरुध्यन्तेभ्यश्च भो न भो नमौ गणाद्भ्यस्तृंहदेभ्यश्च भो नभो नमो कृत्सेभ्य कृत्सपदेभ्यश्च भो न भो नमो व्रदेभ्य ्रातपदेभ्यष्टभो नो नमो गणे भो गणपदेभ्यश्च भो न मो नमो विरूपे भो विश्वरूपे भ्यष्टभो न मो नमो महाद्भ्यः क्षुल्लके भ्यष्टभो नो नमो रथेभ्यो रसयभ्यष्टभोन मो नमो रथे भो रथपदेभ्यष्टभोन मो नमः सेनाभ्यः सेनानिभ्यष्टभो न मो नमः क्षत्रिभ्यः सङ्ग्रहे चभ्यष्टभो न मो नमस्त्यक्षभ्यो भ्रष्टभो नो नमः कुलादेभ्यः कर्मारे भश्चभो न मो नमः पुञ्जिष्टे भारे भ्रष्टभो न नमः जगृद्भ्योऽधम्भगद्भ्रष्टभो न मो नमो मृगजभ्यश्चिभ्यश्च वन मो नमः भष्टमो नमः नमो भवाय च रुद्राय जनमशर्वाय जप शुपदय जनमो हीनग्रीवाय जशिकण्ठाय जनमक्कर्तिने नव्युक्तकेशाय जनमस्सहस्राक्षाय नेट्टाय जनमोत्तमाय च ह्रस्वाय जनाय जनमो हृहज जनमो वृद्धाय जतं वृद्धने जनमोऽ प्रथमाय जनमाशुवे जराय दमश्येभ्यजाय रजेऽभ्यायद नमगो न्यायदामस्वन्याय द नमस्तोस्याय जेप्यायदा नमो ज्येष्ठाय जघनिष्ठाय जनवः पौर्वाजाय चापहजाय जनमोपध्यमाय चाप गर्भाय जनमो जघन्याय जबुध्याय जनमस्वाभ्याय जगपदि सर्याय जनमो याम्याय दक्षेम्याय जनमोर्भर्याय जखल्याय जनमस्वाच्याय दापधान्याय जनमो ह्याय जगक्ष्याय जनः श्रवाल जनम आशुदयनाय जनमःूराय चिन्दने जनमो वर्मिने जव जनमो जन्मिले जगभजने जनमः श्रुतानि च नमो दुन्दभ्याय दाहरन्याय जनमो धृष्टवे जभृशाय जनमो दोताय जप्रहिताय जनमो ऋषङ्ने देमते जनमस्ते क्षेगवेदायुधिरे जनमस्वायुधायध सुधं पे जनमस्मृत्याय जमत्याय जनमः कात्याय जनेत्याय जनमस्तोद्याय जतरस्याय जनमो नाद्याय जैषन्ताय जनमः कोऽप्यायताभट्याय त्याय जनमो मेद्यायज विद्यत्याय जनमये ध्रयाय जादप्यायजनमो वात्याय जेष्मयाय जनमो वा स्तव्यायज वास्तवायजा नमः सोमाय जुद्राय जनमस्ताम्राणि च ऋणानि जनमः शङ्घाय जनमो मुद्राय वधाय दूरे वधाय जनमो हन्त्रे जहनीयुजे जनमो वृक्षे भ्रोहरिषे भ्रो नमस्तार जनमः शिवतराय जनमस्तिर्यथानि भार्याय जनवः प्रतरणाय चोत्तरणाय जनम आधार्याय चाद्याय जनमश्र्याय तभेण्याय जनमस्याप्यायदप्रभात्याय दा नम हिरण्याय जप्रपथ्याय जनमह्रियम् शिलाय चक्षयणाय जनमः कपद्य चमर जनभोष्ठ्याय जगत्याय धनवस्तव्याय जगेत्याय जनमकाट्याय जगप्रदेष्ठाय जनमोहाय जनि हेष्ट्याय जनमपादं सव्यायस्याय जनमशिष्ट्याय य च ब्रह्मसत्याय जमोपगुरमाणाय चिभ्यते च नमः क्षिदते च प्रक्षिदते च नमो क्षिके भो देवान भो नमो विक्षेदके भो नमो विजृम्भक्ते भो नमः भो नमःभ्यः द्रापे अन्धरस्पते दरिद्रन्नेन लोहित येषाम् पुरुषाणामेषाम् पशूनाम् शिवा विश्वाह भेटजी शिवा रुद्रश्च भेटजी तजा नाम रुद्राय तव शेखवर्जनेः प्रभामहे यथा न शमशद्दिपदे चतुष्पदे विश्वम् पुष्पम् ग्रामे अस्मिन्ननातरम् रुद्रमयस्थन्तयस्य पदवरुद्रप्रणीतौ माहान्तर्भगम् मानमुक्षन्त मुदमानमुक्षितम् मादमातरम् प्रियामानस्तरुद्रेण हविष्मन्तो मानस्त्वपूर्षे क्षेत्रीरायसुवस्मेते अस्तु अधिकदेव यच्छद्विमर्हा ङ्गन्ते अस्मन्निवन्तु तव शिवोरः सुमना भव परमे ऋक्षाविधन् निधायकृत्यम् वदानाजरपिनाकम् नमस्ते अस्तु भगवः नमस्तन्यः सहस्राणि दहस्रधा बाहुवोऽस्पवहेतभवः परायेण मुखाकृते सहस्राणि सहस्रदो ये रुद्रादि भूम्याः एतादृम् सहस्रयो जने वधन्वा निधन्मधे अस्मिन् महत्यम् नवेक्ले भवाहि नीरग्रेवाः श्रीकण्ठाः सर्वा क्षमायाः नीलग्रेवा श्रीकण्ठादिवकुम् रुद्रा उपश्रिताः हे वृक्षेण तस्मिन् ये न्ति पात्रेण तेर्थानि प्रचरन्ति षटावन्तो निषङ्गिणः एतावन्तश्च भूयागुङ्कश्चिरे एकागुङ्गन्मजे स्ते भवनत्रा दक्षिणास्ते भवनहस्ते न मिडयन्धतेयम् दश्वायश्चेक्षितम् भोजम् भेदधामि ओ स्पन्नोर्भ्यम् पर्वते शुश्रियाणाम् वाते पद्यन्ने वरुणश्च शुष्मे अभ्यमोषेभ्यो वनस्पतिभ्यो सम्भृताम् धत्तमरुदश्चाः अस्मर्गस्थे क्षुदमुन्ते शुकुदयन्त्य स्मः समुर्गश्च बाबा कजाग्ने परिव्यजामसि हिमस्य त्वा जरायुनाग्ने परिव्यजामति पावको अस्मभ्यगम् शिवो भवत्तरम् नरेष्पा अग्ने पावसि मण्डोकिताभिरागहिते मण्डो यज्ञाम् पावकवर्णकम् शिवम् कृते पावक आचितयन्त्याभ क्षामण्डवृज कुषसो न भानुना ोर्वया मन्द्रे च तस्य नोरणोधणे नररिधानजरः हर्णे पावकरोविषा मन्द्रया देवजग्मया आदेवानमक्षिजक्षिजा तनः पावगते दिवाग्ने देवागम् विहावः उपयज्ञगम् हविष्टनः अपाविनयनगम् समुद्रस्य निवेशनम् अन्यन्ते अस्मर्तवन्तु हेदयः पावको अस्मभ्यकम् शिवो भव नमस्ते हरसे शोदिषे नमस्ते अस्मत्युषेः अन्यन्ते अस्मत्तवन्तु हेदयः पावको अस्मभ्यगम् शिवो भव ऋषदेवटः सुषदेवट्वनसदेवड्वरि हिषदेवत्सु वर्मिदेवटे देवा यज्ञिजाकम् संवत्सरेणामरे अवतारोहमिषो जज्ञे अस्मिन् स्वयञ्जुद्रह्मधुरो हृदस्य हे देवा देवेष्मधित्वमायनये ब्रह्मणः पुरगेतारो अस्य हेभ्यो ने पवदेधामगिञ्जनो न पृथिव्या हिसृषो श्च क्षुब्दामच्चोदाहपरिबोधाः अण्यन्ते अस्मत्तपन्तु अस्मभ्यगम् शिवो भव अग्न्यस्त्रित्वेन शोचिनायकम् सद्विष्वन्यत्रिणम् आज्ञन्नावकम् सदेयम् सैनानेकेन तु विदत्र अस्मे देवायुरिष्टस्ति अनद्धो गोपा पुनः परस्पर अग्रे मरे मज्जी